ओम परमात्मने नम श्रीजगदं का नम अथ श्रीमदेवी भगवते महापुराणे सप्तम स्कंधे षट्शोध्याय दी उवाच इोग युक्ता ध्यान मह्मिणी भक्तियाजन आसने सुपस्थित आविसन्निहितङ्गुहा शरम् नाम महत्पदम् अत्रैतत् सर्वमर्पेतम् एजत्प्राणा एष यत एतज्जानत सद्वसध्वरेण्यम्बरम् विज्ञानाद्यध्वरे सम्भजानाम् यदश्चिमद्योभ्योऽढोच यस्मिन् लोका नेता लोकिनश्च तदेतदक्षरम् ब्रह्म सत्सप्राणः तद्वाङ्मनः तदेतत् सत्यम् अमृतम् तद्विद्धव्यम् त्वमविद्धि धनुर्गुहीत्वा उपनिषन्नम् हास्रम् शरं ह्योपासा निशिलम् दन्दीत आयम्यतद्भावगतेन चेतसा लक्ष्यम् तदेव क्षरम् सौम्यविद्धि प्रणवो धनुश्चरो ह्यात्मा ब्रह्मतलक्ष्यमुच्यते अप्रमत्तेन वेधव्यम् शर्वे तन्न यो भवेत् यस्मिन् दोचे पृथ्वी च अन्तरीक्षम् ओ तम् मनस प्राणे च सर्वे तमेवैकम् जानथात्मानमन्या वाचो अथम्भृतस्यैष सेतुः अराइ वै रथा न रथनाभो संहता यत्र न जः स एषोऽन्तश्चरते बहुधा दायमानः ॐ इत्येवम् ध्यायथात्मानम् स्वस्येव पारायतमस प्रसात् दिव्ये ब्रह्मपुरे आत्मा सम्प्रतिष्ठतः मनोमय प्राणशरीरनेतार प्रतिष्ठितोऽन्ने हृदयम् निधाय तद्विज्ञानेन परिपश्यन्ति धीरान्धरूपम् पृतम् यद्विभाति भिद्यते हृदये ग्रन्थे न छिद्यन्ते सर्वसंशयः क्रीयन्ते च अस्य कर्माणि तस्मिन् धृष्टे परावरे हिरण्मे परे कोशे विराजम् ब्रह्मनिकलम् तच्छुभ्रं ज्योतिषां ज्योतिः तद्यत् आत्मविदो विदुः न तत्र सूर्यो भाति न चन्द्रतारकम् दयिमा विद्युतो भान्ति कोतोऽयं अग्निः तमेव अनुभाति सर्वम् तस्य भाषा सर्वमिदं विभाति ब्रह्मैवेदम् अमृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणश्च उत्तरेण अधश्च ऊर्ध्वं च प्रसृतम् ब्रह्म एवेदं विश्वं वरिष्ठम् एतादृश न भवो यस्य सकृतार्थो नोष च तेन काङ्क्षते द्वितीयाद्वै भयं राजन् तदभावाद्विभेति न तद्वियोगो मेऽप्यस्ति मद्वियोगोऽपि तस्य न अहमेव स वै निश्चितं विद्धि पर्वत मद्दर्शनं तु तत्र यत्र ज्ञानीस्थितो मम नाहं तीर्थेन ना कैलासे वैकुण्ठे वा न वसामि किं तु नोचनम् फुलम् पवित्रम् दर्स्यासि जननी कृतकृत्य गाय विश्वम्भरा पुण्यवती चिल्लयो यस्य चेततः ब्रह्मज्ञानम् तु यत्कृष्टम् त्वया पर्वतसत्तम कथितम् तन्मया सर्वम् नातो व्यक्तम् अस्ति इदम् ज्येष्ठाय पुत्राय भक्तियुक्ताय शीलिने शिष्याय च यथोक्ताय वक्तव्यम् पर यसा देवे भक्ति यहाँ तस्ते कथिता प्रकाशं महात्म ये नोपदिष्टा विद परिगृत असम तथोणी पिछरप्यधिक ्रह्म जन्म प्रदायकम् पित्रो दातं जन्म नष्टम् नष्टं धातं कदाचन तस्मै नुयेत्यादि निगमोऽप्यवदन्न तस्मात् शास्त्रस्य सिद्धान्तो ब्रह्मदाता गुरुपरः शिवेरुष्टे गुरुश्रता गुरुरुष्टेन शङ्करः तस्मा सर्वप्रयत्नेन श्रीगुरुम् तोषयन्न मनसा वाच सर्वदा तत्परो भवेत् इन्द्रेण थ... योक्ता शिरच्छेदे प्रतिज्ञया अश्विभ्याम् कथने तस्य शिरच्छिन्नं च वज्रिणा अश... अश्वीयम् दच्छिरो नष्टम् दृष्टा वैद्यस्वरूपमौ पुनः संयोजितं श्रीयम् ताभ्यां मो निश्चिरसदा इति सङ्कटसम्पाद्य ब्रह्मविद्यानगाधिप लब्धायेन स धन्यश्च भूधरः इति श्रीमद्देवी भगवते मापुराणे साधुदासहितायां सत् नमस्कन्धे देवी गीतायाम् ब्रह्मविद्योपदेशवर्णनम् नाम शास्त्रीञ्चोऽध्याय हे श्रीजगदम्बिकायार्पणमस्तु